हरि ओं श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे सप्तत्रिंशर्ग विभीषणेन श्रीरामं प्रति रावणेन वीताय लङ्कारक्षा व्यवस्थाया वर्णनम् श्रीरामेण लङ्कया द्वारेष्वाक्रमणाय वानर नियुक्तिः ना नरे वा रतो वायुसु स कपि जाम्बवान् वृक्षराज च राक्षसश्च विभीषणः अङ्गुलो वालिपुत्रश्च सौमित्री शरभकपि सुषेण सदायरो मैन्दो द्विधैव च गजोगवाक्षय कुमुदो नरोथ परसस्तथा अमित्र विषयं प्राप्ता समवेता समर्थयन् इयं च लक्ष्यते लङ्का पुरै रावणपालितः सासुरो रगन्धर्वै अमरे अपि दुर्गया कार्यसिद्धिम् पुरस्कृत्य मन्त्रयद्धम् विनिर्णये नित्यम् सन्निहितो यत्र रावणो राक्षसाधिपः अथ तेषु ब्रवाणेषु रावणो वरजो ब्रवी वाक्यम् पदवे पुष्कलार्थं विभीषणः अनलयपनतश्चैव सम्पाति प्रमथि तथा गत्वा लङ्कामद्य पुरीं पुन इहागतः भूत्वा च सर्वे प्रविष्टा च विधानं वेतम् व्य तद्दृष्ट्वा समुपस्थितः संविधानं यथा रावणस्य दुरात्नः राम तद्ब्रुवतः सर्वं याथा तथ्येन मे श्रुणो पूर्वं प्र सह सबलौ द्वारमासाद्य दक्षिणं च महावीर्यो महापार्श्वे महोदरौ इन्द्रजे पश्चिमं द्वारम् राक्षसै बहुभिः वृतः पट्टितायिषी धनुष्मद्भिः शोलम्भुद्गरपाणिभिः नाना प्रहरणै चूरैः आवृतो रावणत्मजः राक्षसानां सेतु बहुभिः शस्त्रपाणिभिः युद्ध पराम संविघ्नो य राक्षसै स मन्त्रभीत् नगरद्वारम् रावणः स्वयम् आश्रितः निरूपाक्षस्तु महता शूल खड्ग धनुष्मतः बलेन राक्षस सार्धम् मध्यमम् गुल्ममाश्रितः एतान् एवं विधान् गुल्मान् लङ्कायाम् समुदीक्ष्यते मामका मन्त्रिण सर्वे शीघ्रं पुन गजानाम् दशसहस्रम् रथानाम् मयुतम् तथा हयानाम् मयुते द्वे साग्रे कोटि च रक्षसाम् विक्रान्ता बलवन्तश्च संयोगेष्वसायिनः इष्ट्वा राक्षसराजस्य नित्यम् एते निशाचरः इधर्थी राक्षसस्य विशाम्पते परिवारसहस्राणाम् सहस्रम् उपदिशति एतां प्रवृत्तिं लङ्कायां मन्त्रि प्रोक्तां विभीषणः एवम् उक्त्वा महाबाहु राक्षसान्तान् दर्शयत् लङ्कायां शचिवैः सर्वं रामाय प्रत्यवेदयत् रामं कमलपत्र राक्षम् इदम् उत्तर अब्रवीत् रावण वर्ज श्रीमान् राम प्रिय चिकित्सय कुबैरन्तु यदा राम रावण प्रतियुध्यति षष्टिशतसहस्राणि तदा निर्यान्ति रक्षसाः पराक्रमेण वीर्येण तेजसा सत्त्व गौरव सदृशा ह्यत्र दर्पेण रावणस्य दुरात्मनः अत्र मन्योर्न कर्तव्य कोपये त्वाम् समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे तद्भवान् बलेन महता वृतम् यूहेदम् वा नानेकम् निमर्थयिष्यसि रावणम् रावण एवम् ब्रुवति राघवे शत्रूणाम् प्रतिघातार्थम् इदम् च न अब्रवीत् पूर्वद्वारम् तुलङ्काय नीलो वानर पुङ्गवः प्रहस्तं प्रति युद्ध स्यात् वानरे बहुभिवृतः अङ्गदो बलेन महतावृतः दक्षिणे बाधताम् द्वारे महापार्श्व महोदरौ हनुमान् पश्चिमद्वारम् निष्पीड्य पवनात्मजहे प्रविश्व प्रमे द्वौ भी कपिभितः दैत्य दानवसङ्गानाम् ऋषीणाम् च महात्मनाम् द्विप्रकारे प्रियशुद्र वरधान बलान्वितः प्रतिक्रमयति यः सर्वान् लोकान् संस्थापयन् प्रजा तस्याहम् राक्षसेन्द्रस्य स्वयम् एव वधे धृतः उत्तरम् नगरद्वारम् अहं सौमी श्रीनिसः निपीड्यभि प्रवेशामि स यत्र रावणः वानरेन्द्रस्य बलवान् वृक्षराजश्च वीर्यवान् राक्षसेन्द्रानुजश्चैव गुल्मे भवतु मध्यमये न चैव रूपं रूपम् कार्यम् हरिभिराहवे एषा भवतु न सन्या युद्धेऽस्मिन् वानरे वरे वानर एव नश्चिह्नम् भविष्यति वयम् तु मानुषेणैव सप्तयोत्साह महे महे परान् अहमेव स भ्रात्रा लक्ष्मणेन भोजत आत्मना पञ्चमश्चायम् सखा मह विभीषणः स राम कृतसिद्ध्यर्थम् एवम् मुक्त्वा विभीषणम् सुैलारोहणे बुद्धिम् चकारे मतिमान् प्रभु रमणीयतरं दृष्ट्वा सुैलस्य गिरेतरम् तत सुरामो महता बलेन स्वच्छादि सर्वं पृथिवीं महात्मा प्रष्टरूपोऽभिजगे महात्मा इत्याशै श्रीमद् रामायणे वाल्मीकियाधिका वेदकाण्डे सप्तशीं च सर्गे श्रीसीतारामचन्द्रार्वमस्तु